ओ oh. भ्यश्चलं निर्मपेद्भूतिकामादित्या वात्येवत्येभ्य तभ्यश्चलन् निर्वपेदपरुद्धो वा परुध्यमानो वादित्या वा अपरो धार आदित्या अवगमगितार आदित्यामेव धारयद्पस्पेन भागधेयेन परभ्यो भवत्यजितेन मन्यस्मैपरुध्यमानोऽस्वमादति धैर्यम् वादितिर्यमेवास्मै राज्यमनुमन्यते प्रत्याशीत्याह सत्यामेवादिषम् कुरुत इहम्याः प्रजामेव स्मै समनसः करोप्युप रुदस्तुता राजा समर्थ्यस्य गृहा शुक्लागिष्ट कृष्णागिश्च विजय शुक्लाष्टमादित्यं जलं निर्म वेदादित्या मे देवतया गतनु राष्ट्रमित्याहुर्य कृष्णाश्चे एव विषञ्च राष्ट्रञ्चापगच्छति दिनामगश्च दिवमादित्य प्रभागम् निर्ववाम्यामस्मादमुष्ये विषोऽवगन्तो हृजनिर्वभेदादित्या देवीणम् भागधेयम् विषमवगमयन्ति दिनामगच्छेदा भ्यमेजायामुपहन्याहवादित्यान् बध्नां यामुष्माधमुष्के विशोऽपगन्त्यादित्या एवं पद्धवीरामिषमवगमयन्ति यदिनावगच्छेदेतमेवादित्यञ्चलन् निर्वपेऽपि मयूखान्ध्यमेवावगच्छत्याश्वत्था भवन्ति मरुतां वा विषमवगच्छति भवन्ति सप्तजना मे मनुतो जनस एव विषमवगच्छति देवा वै मृत्यो रतिभयश्च प्रजापतिमुपाधावन्त्य एताम् प्राजापत्यागम् शतकृष्णान्यरपपत्तयैवै समृतपदधाद्यो मृत्योर्तिभीयात् तस्मादेताम् प्राजापत्यागम् शतकृष्णभान्निर्व प्रजापतिमेव स्वेन भागेनोपधावस्मिन्नायुर्दधाति सर्वमायुर्वेति शतकृष्ण भवति शदाय पुरुषः शते ृतञ्च समेते चत्वारि चत्वारि कृष्णधान्यवत्याय ब्रह्मण उपहत्यो न्यलोच तस्मै देवाः प्रायश्चित्यमये तस्मादेतरुम् सौर्यम् च ब्रह्मवर्जश्च रुक्मो भवतो भजत एव प्रयाजे रुष्टहो ब्रह्मवर्चसमवरुन्धाय सा वित्रं द्वादशकपालं भौम्ये जल्यः कामयद हिरण्यं विन्देन हिरण्यं मोपनमे भवत्या हिरण्यं तेनैवैनद्विन्दतेन मित्रो भवति सितृप्रसोदय वैनद्विन्दते भौम्ये चतुर्भवत्यस्यामेवैनद्विन्दत उपैनकं हिरण्यं नमतिविवाहेश इन्द्रियेण वीर्येण हिरण्यम् विन्दत नेतामेव निर्ववेद् हिरण्यम् विद्वार्यत नेतामेव निर्ववेद्य हिरण्यन्दस्यो भवत्यः ज्ञेयम् वै हिरण्यस्यैव हिरण्यन्ते नैवेन धा मित्रो भवति सित्रप्रसोदेवेन भूम्ये जलुद्भवत्यस्याम्बा वेतन्नश्चिरन्दश्च तस्यामेवेण विन्दते ेषाम्यामाकाभवन् स प्रजापतिश्यामाकं निरवभक्ते नैवास्मिन् सोमभेन्द्रियेण सोमभेण ं सोमेन्द्रज्ञस्यागञ्चलं निर्वपवेत् सोमं चैवेन्द्रञ्चण भागधैर्येण भावेवास्मिन् द्रियगुं सोमपीठं धत्तो नेन्द्रियेण सोमपीठेन व्यध्यते यत् सौम्यो भवति सोमपीठमेवावरुन्धैर्येन्द्र भवतीन्द्रियं वै सोमपीठ इन्द्रियमेव सोमपीठमवरुन्धे श्यामाको भवत्यैरवावदतोमस्साक्षादेव रुन्धे क्रजेदात्रे पुरोटा नमष्ट्यागपालन्यत्रे पुरोटाशमेकाजकपालम् पशुकामाद्य वृद्धानिन्द्र प्रयच्छति तथिमधुकृतमापोधाना भवन्ते तद्वै पशूनागम् रूपकम् रूपेणैव पशूनवरुन्धे पञ्चगृहीतम् भवति पाण्डाहि पदवो बहुरूपम् भवति बहुरूपाहि पदवः जाभत्यम् भवति प्राजाभक्त्या वै पशवः प्रजापतिरेवास्मै पशवन् प्रजनयत्यात्मा वै पुरुषस्य पथिजन्मभग्नौ नित्यात्मानमेव दद्यमानोऽग्नौ प्रदधाति पञ्चौ याज्ञानवाच्य भवदः पान्तः पुरुषः पान्ता पशव आत्मानमेव े सत्रमासदधिपरिमितैषस्कामास्तेभवदामिन्द्रो भ्रष्टोनुपरेत्तावभ्रलेद्याजय तं व्यतस्तामष्टन्द्रमपतामाग्नेयष्टाकपालमहेन्द्रमेकादृशकपालकुं सौम्यञ्जलन्त भ्रष्टस्यामिष्टेन्द्रेयमष्टागपालमीन्द्रमेकादशकपालकं सौम्यञ्च यदा तेजगे वा तथा न भवतीन्द्रियमेवन्तेन तथा नयत् सौम्य ब्रह्मवर्चनस्य च सौम्यस्य तेजष्टैवास्ति मेते तथात्यग्ने यमेकाङ्गामो नेदाग्नेयो वैस्सोमं विभधि स्वामेव देवताकस्मै नागधे जैनापधावति सैवै न कामेन समर्थयत्युवै न कामो नमत्यग्नेमीयमष्टागमान का निर्वभे ब्रह्मवत्सकामो अग्ने वेदस्मेन भागधे जैनापधावेव ्रह्मवर्चत्वा ब्रह्मवर्चस्येवस्तेनाग् यच्छामाकेन समृद्धे नो मायवादिने श्यामाकं जलं तस्माद्वाजिनमभ्राम्यथ चक्रयेव्याद्विभाय सोममेव वाजिनग्रस्पेन भागाव जिनं दधाति न क्लीवो भवति ब्राह्मणस्पत्यमेकाशुसपालन्य ब्रह्मणस्पतिमेव स्वेन भागधेनोपधापति सेवास्मै सजातान् प्रयच्छति ग्राम्येव भवति गणवलीया भवदस्य जातैरेवैनं गणवन्तङ्करोतामेव निर्मवेद्यः कामय ब्रह्मन्विषं विनाशय नुतीया जानाग्य कविजा ब्रम भी संनाशय हर्यं ने नरण्यकृटवेत् सुभर्गकामोऽसौ वा आदित्यो यमार्यमणमेव स्वेन भागधे येनोपधावधिस एवेन कम् सुभर्गम् लोकं गमयत्यर्यं ने चरण्य कृणवेद्यः कामये ददानकामा मे प्रजासरित्यतो आदित्यो यमायः खलु वैददादिसो यमार्यमणमेव स्वेन भागधे येनोपधावधिस स्मै प्रजाभवन्तर्येद्यः कामयेत स्वनजामित्यसौ वायति यत् अधिगमिषतेन्द्रो वै देवानामानुजापदा प्रजापतिमुपाधावत्तस्मानेतमेन्द्रमानशोकमेता त्य नैवै नमग्रम् देवतानाम् परिगणयत् बुद्ध्रवती अग्रवदीयाग्रालभाक्योद्धा देवै नमग्रम् परिगणयद्योराजन्य आनुजामणस्या तस्माघेतमेन्द्रमानशोकमेकाशुकपालन् निर्गमेन्द्रमेवै नमग्रगम् समानानाम् परिणयति बुद्ध्रवती अग्रवदीयाग्रालभाक्ये भवति देवे नमक्रम् परिणयत्यानुशोको भवत्येन जा वरस्वध्येयो ब्राह्मणानुज वरस्यात्तस्मावेतं वा बृहस्पत्यवानुशोकं जलं निर्मवेत् बृहस्पतिमेव जैनोपधावसेवे नमक्रगुं समानानां परिणयति बुद्रवरी वक्रवदीयाज्ञानवाक्य नमग्राम् परिणयत्यानुलोको भवत्येदाख्येदश्च देवतागानुदा वरः समृद्धे प्रजापते त्रयस्त्रिविंशक्तिभित आसन्तः स्वमाजराज्ञे तदा राजागुं रोहिणे उपवेत् तादीष्यन्ते पुनरगच्छन्तान्वयेत् ताः पुनरयाचरता हस्ते न पुनरददा समावृतममेथा समावक्ष उपेष्याम्यथ ते पुनर्दास्यामे तिष्ठमामेत्ताहस्ते पुनरददा राजागुण्रोहिणीमेवो भवेत् क्ष्मात्रा ृणामहेतमावर्तगेव न उपायस्मादेतमादित्यं च नैव पापात् श्रामादमुञ्चनयः पापयक्ष्महे न स्यात् तस्मादेतमादित्यं चलं निर्ववेदादित्यादेव स्वेन भागधेन पावात् श्रामान्मुञ्चमाभाजामेवैनमाव्याय यति नव न भवति न्द्रकं राजानविन्द्रपथिराजमिन्द्रग्रस्पराजानन्दतो वेश इमान् लोकागस्पे धातु भक्त कृधातोः कृधातुमगेधान्नादस्याधितस्पावेदं कृधातुं निर्वपेतिन्द्रागराज्ञे पुरोकादशकपा रमिन्द्रायाधिराजायन्द्राय स्वराज्ञेयं वा इन्द्रो ेवन् भागधे जेनोपधामधितेवः स्मा अन्नम् प्रयच्छन्त्यम् नादेव भवति लोकान् प्रत्तान् ग्राममुन्नाद्यन् दुभवृत्तानेष्पादेष्पयत्रयापया वत्तायत्रयः पुरोणाचा भवन्ति त्रे दिवे लोक सम सब्थे सर्वभिगम चंवत्कार देवासुराः संयत्रा सेवासुरायन्ते देवाः पराजिज्ञानासुराणां वैश्यमुपायन्ते अभ्येन्द्रियं वेद्यभक्तरिन्द्रो जायत्तदम्बपाग्राभक्त स वरुधन्नाश्मा परस्मादभ्यर्थो जरत्स प्रजापतिपपाधा भक्त मेघया सर्ववृष्ठया जा जयत्तस्मिन्दिन्द्रियं वेर्यवदधातिरिन्द्रिय रामो वीर्य कामस्याक्तमेतया सर्वया या जने देवता एव देवतास्पेण भागैर्येणोपधावजिता एवास्मिन् इन्द्रियं वीर्यं दधति यदिन्द्राय राशन्तराय निर्मपति यदेवाग्नेस्तेजस्तदेवावरुन्धे गदिन्द्राय पार्हताय देवेन्द्रस्य तेजस्तदेवावरुन्धे गिरिन्द्राय वेहोपाय देवस्तेजस्तदेवावरुन्धे ्राय वैराजाय जय जय ज देवधातस्त यस्तदेवावरुन्धे इदिन्द्रायशाश्वय देववरुधान्त्यजस्तदेवावरुन्धे यितिन्द्राय वैवताय न्तर्यमाने तथा नृष्टर्भस्तस्ता दक्षिणाभिढत्त्वामेतयैव येताभि दश्यमाननेताश्चेद्वा अस्य देवता अन्नपतन्त्यतन्तुवाश्च मनुष्याः रजतो वैकौरे यः जान किञ्चक्षुर्वम् व्यवजा तस्मावेदामिष्टिम् निर्वपदग्नय भ्राजस्पदे पुलोडाचमष्टाकपालकम् शौर्यञ्चलमग्नय भ्राजस्पदे पुलोडाचमष्टाकपालन्तजेवास्मिन् चक्षुरदधाद्यश्चक्षुष्कामस्यास्तस्मावेदामिष्टिम् निर्वपदग्नय भ्राजस्पदे पुलोडाचमष्टाकपालकम् शौर्यञ्चलमग्नये चक्षुषा मनुष्यान्ति देवाग्निवर्येन भागधेयेन चक्षुष्मादेवो वेयो भवतश्चक्षुषीवास्मिन् तत्प्रतिदधा सौर्यो नासिकान् तेनाभिधः सौर्यमाग् भवतस्तस्मादभितो नासिकान् चक्षुषे तस्मान्नासिकजा चक्षुषे विधदेवस्तमर्भ्यामुदत्यम् जातवस्त हरितोऽर्थ चित्रम् देवानामुदगाधनीकमिति बिण्डान् प्रयच्छति चक्षुदेवास्मै प्रयच्छति यदेवदस्य तत् ध्रुवोज ध्रुवोहगम स जातेट भोजागंधीस्तत्वे ध्रुवाज ध्रुवोहगं जातेुवाज ध्रुवोहगं जातेमनम यान देता कुमारहंकामे हृदा का स्वाहानस्यामनस्तदेवास्मिनस्समनस्ता अहङ्कामये हृदा ताङ्गामयन्ता हृदा ता मामन सर्कधिस्वाहा वैश्वदेवी निर्वगे ग्रामकामो वैश्वदेवा वैशजाता विश्वादेव देवान् येन प्रयच्छन्ति ग्राम्ये भवता ध्रुवादिकं प्रजातेव सर्वं सजातेष्वधि भवति यश्चैवं विदुरते परिधय परिधीयन्त इति तिस्राहुरेतावन्तो वेधजाताय महा येक्षुर्लकाया श्रियस्तानेवावरुन्धे तयेन ववरुद्धा उपतिष्ठन्ते य भवेत् तन्नभेतम् भवत्य भवत्य चेतत् काय्ययो प्राणो जिष्पाहेन्द्रस्य प्राणोजितस्य तेजसा युष्माः धृतस्य धारा ममुदस्य पन्थामिन्द्रेण दत्ताम् प्रयताम् मरुद्धे तत्त्वा विष्णः पापमानेन त्वा स्तोेन गश्च वर्तन्या ेवणसोमराजन् मा देवास्मादिदेशर्म यच्छ विश्वे देभाचरदक्षि यथा सते ग्निरायुष्पान् स वनस्पतिभिरायुष्मान्ते नस्वायुधायुष्पन्तम् करो वि भो मायुष्मान् स वोटदेभिर्यज्ञहायुष्पान्तदक्षिणाभिर्ब्रह्मायुष्पस्तद्ब्राह्मणेरायुष्पदेवा आयुष्पन्तस्ते वृतेन वितरायुष्पन्तस्ते स्वधरायुष्पन्तस्ते नत्वायुधायुष्पन्तम् करोमि शरीरम् गच्छति सोमगुं रसो वरुणयेन वरुणपाशेन गृह्णाति सरस्वतीं वा गघ्नाविष्णो आत्माय सज्यो कामयति योज्य कामयापि स्याद्यो वा कामयेत सर्वमागर्यामिरि तस्मागेतामित्यं सर्ववेदायमष्टाकपालकं सौम्यं चलं वा रुणं दशकपालकं सारस्वतञ्चरुमा वैष्णवमेकादशकपालमग्ने देवास्य शरीरं निष्क्रीणादिसो मातृसंवारुणेनैवैनं वरुणपाशान्मुञ्चति सारस्वतेन वाचं तथा यज्ञः सर्वा रूपमेव श्रीलम् महिमानं यादस्यश्विनो प्राणो देत्याः विनो वै देवादाम्भदौ ताभ्यामेवस्मै भेजनं करोतीन्द्रस्य प्राणोधेत्याहेन्द्रियमेवस्मिन्नेतेन दधाति मित्रावर्णयो देवानाम् प्राणोदेत्याह वीर्यमेवास्मिन्नेतेन तथा रिघृतस्य धानामृतस्य पन्थामित्याह यथा यजवैतत्वावमानेन त्वास्त्वमेनेत्याह प्राणमेवास्मिन्नेतेन तथा रिबृहन्त स्वाहात्याहुदयेवास्मिन्नैतेन तथा त्यग्ने स्वामात्रयेत्याहात्मानमेवास्मिन्नतेन तथा तृप्तिरः पर्याहुर्यावन्तयेव त्रिरस्तयेन विषज्यन्ते ब्रह्मणो हस्तमन् भारभ्यपर्याहुरे कथैव यजमानाय दधति यदेवतस्य तद्धिरण्यान्निष्पिभक्त्यायुर्वैतमृतम् हिरण्य देवाय निष्पि शतमानं भवति शताय पुरुष शतेन्द्रियायुष्येवेन्द्रिये प्रतिष्ठत्यसौ खलु समावेष्टेन्मानज्ञ स्यात् समृद्ध्याय मम ज्ञायुषेवर्चेत्यावान्वर्चो तथा च देवा जलदश्चर्यथा धृत्याह जलदृष्टिमेवेणङ्करो त्यगिरायुष्पा ृहस्तम् देवै देवा आयुष्पम् दष्टगेव स्नायुर्दधति सर्वमायुर्वेति जापतिर्वरुणायाश्वमनयच्छस्वान् देवतामाक्षपर्यतेर्यतम् वारुणञ्च दुष्कपालमपश्च वेदवरुणभाषादमुच्यत वरुणो वा एतम् ग्रन्हादिश्वम् प्रतिगृह्णादि यावदोऽश्वान् प्रतिगृह्णीया तावदो वारुणाञ्जुष्कपाला वरुणवेकधेयेनोपधाव ीयं वरुणपाशान्मुञ्चति चतुष्कपाला भवन्ति चतुष्काध्यत्वमदैरिं निर्वतेव प्रतिग्राहे भवति तस्मादेव वरुणपाशान्मुच्यते प्रतिग्राहे स्यात् शौर्यमेकपालमनुर्गते तमुदेवादित्यमुच्चारम् कुरुते पोपृथमवेसु वै वरुणः साक्षादेव तो नीयञ्चलम् पुनरेद्यभेदप्सयो निर्वाश्वस्तामेवैनयो लिङ्गमयवितलेनकम् शान्तमुपतिष्ठते या वामिन्द्रावरुणाय दव्या धनोऽस्तदे अमबुंहतोमुञ्चद्यावामिन्द्रावरुणा धनस्या रक्षस्या तेजस्या धनोऽस्तये अमबंहतोमुञ्चदय यो वामिन्द्रावरुणा वग्नवोऽस्तामस्तम्ब वेदेना वयदे यो वामिन्द्रावरुणा द्विपात्सु पदुषुपात्सुकोष्ठे द्वेस्पजस्तामस्तम्ब वेदेना वैद इन्द्रो वा वेदस्य रुणयणं <laughs> मरण ृन्धा धियप्पात्मना गृहीतो भवतिगप्पात्मना गृहीतस्यात्तस्मागेतामयेन्द्रावरुणेन्दयस्यास्मिन् दधाति वरुणये वरुणपाशान्वञ्च तिपयस्या भवतिपयोतस्मादपक्राम्यथैतपात्मना गृहीतोऽ प्रयस्या त्यात्मन्वन्तमेवेणकरो यथो आयुधमेव चतुर्भाव्यो हरिक्ष्मेव प्रतिष्ठति पुनस्तमो हरिणात्मैभेदङ्करोति नमो यावद्यति त्याहै तावोगतप्रजापशव उपदीपनीगास्तादेवाष्मे वरुणपादान्मुञ्चति न पत्रिकाव्येन्द्रम् वा विश्वदस्पयेन्द्रम् नरः तन्नस्त्वम विश्वतो रक्षाराजन्नखागतः या पृथिव्या या पर्वतेष्वषधेष्वप्सो हे धर्मा विश्वे सुमनारेणन्त्राजम् स्वमत्पति हव्याग्रभाय अग्ने रोमासवेरलासहो देवनदङ्गिरः राभो मसो युवमेतानि वीरोचनान्यश्च तोमसक्रतो अथम् विमगम् सिन्धोगुम् रभितवद्यादग्नेशो मा पुमञ्चदम् ग्रहीतान् अग्नेशो मा विमगुम् सुमेषु न तम् विषणाहवम् पथितो हर्यतम् भवतम् दासुरे मयः आन्यम् दिवो मा दरिष्वाचभारामस्यादन्यम् परिश्येनो अद्रेः अग्नेशो मा ब्रह्मणा वा वृधानो अर्जेलो माहरिषः प्रच्छिदस्य वेदगुम्हव्यम्भोजमता भक्त यजमानायोः आप्याय श्रसन्ते धनाम् मा गणपतिगुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् येक्षराजम् ब्रह्मणाम् ब्रह्मणस्पदहार शृण्वन् नोति साधनम् स यिज्जनेन स विषादजन्मनाथपुत्रेऽनुवाजम्भरतेधनादिभिः देवानाय पितरमादिवादलः श्रद्धामनाहविढा ब्रह्मणःपतिम् सत्त्वभासग्वदागणेन वनगौलोजफलिकगुं रवेण बृहस्पतिरस्त्रियाहव्यदः कनिर्कर्वापचतेरुदाच मरुतो दिवो यावः शर्म अर्यमायादिविणभीष्मान् दादावधूनाम् पुरुभोगो हरिषण्क्षो गोच्चभिग्रबाहुरस्मातु देवो द्रविणम् तथा तु एतेऽर्यमन् बहवो देवजाः पन्था नो राजम् दिव आचरन्ति एकन्नो देवमधिशर्म यच्छन्दने सिद्धिपदेशतुष्पदे बुद्ध्रादग्रमङ्गिनोऽभिर्ग्रणाना पर्वतश्च त्रिगुम्भिधान्यैरज रुजग्रोधागुम् कृत्रिमाहान्यैषाकम् सोमस्य तामदयेन्द्रश्चकार बुद्ध्रादग्रेण विमायमानैर्वज्रेणान्यतृण नदीना वृथा पृथिभिर्देर्घयाते सोमस्य प्रयोयज्ञे विद्वागुम् अस्य बन्धम् विश्वानि देवो जनिमामिभक्ति ब्रह्म ब्रह्मणवृद्यभारमध्या नेदुच्छा अदयाभिप्रदस्थौ महान् महि अस्तभागद्विजातोद्यागम् सद्मपार्थिवम् चरजः बृहस्पतिर्देवतायस्य सम्राट उत्थाद्योग्रमभ्यप्योजसा बृहत्पीमा विभासन्ति देवा दिनद्वनम् विपरोधने रिकणिक्रत्सुमपोजिगाय